श्रीहरे नमः अत एकादशोऽध्यायः श्रीशुक उवाच त एवं धर्मं वचः क्युरचेतसः नैवा गृह्णन्भयत्रस्ता पलायनपरा नृप विशीर्यमाणां आसुरीमसुरर्षभः कालानुकूलस्त्रिधसे काल्यमानामनाथवत् दृष्ट्वा अतप् व्यतसंगृद्ध इन्द्रशत्रुरमर्षितः तान्निवार्यौ जसाराजन् निर्भत्स्येदमुवाचः किम्बवुच्चरितैर्मातुर्धावद्भिः पृष्ठदोहतैः न हि भीतवदश्लोक्यो न स्वर्ग्यसुरमानिनां यदि वः प्रधने श्रद्धा सारं वा हृदि अग्रे चेद्ग्राम्यसुखे स्पृहा एवं सुरगणान् क्रुद्धो भीषयन्वपुषा रिपोन् व्यनधत्सु सर्वे वृत्रविस्फोटनेन वै निपेतुर्मूर्छिता भूमौ यतैवासनिनाहताः ममर्दपद्भ्यां सुरसैन्यमातुरं निमीलिदाक्षं रणरङ्गधुर्मतः घां कम्पयन्बुध्यतशुलवोजसा नालं वनं विलोक्य तं वज्रतोत्य भर्षितः स्वसत्रवेभि द्रवते महागदा शिक्षे पतामापततीं सुदुःसहां जग्राह वामेन करेण लीलया स ्रुः कुपितो वृशन्तया महेन्द्रवाहं गदयोग्रविक्रमः जघानकुम्भस्तलवुन्नधन्मृे तत्कर्म सर्वे समभूचयन् नृपा वृत् तत्र गदाभिमृष्टो विघूर्णितो द्रिकुलिसाहतो यतः अपासरद्भिन्नमुकः सहन्ध्रो प्राङ्क्युङ्क्तभो यस गता महात्मा इन्द्रो मृदस्यन्धिकर विमर्श वीतव्यदक्षतवाहो बधस्ते वज्रायुधं भ्रातृगणं विलोक्य स्मरञ्च तत्कर्म नृशंसमं ह शोकेन मोहेन हसन् जगाध दिष्ट्या भवान्मे समवत्स्थितो यो ब्रह्म महा गुरुः दिष्ट्यां च दिष्ट्या नृणोद्यागमसत्तमत्वया मत्शूलनिर्भिन्नदृशद्रुदाचिरात् यो नो ग्रजस्यात्मविदोद्विजातेः गुरो अपापस्य च दीक्षितस्य विश्रव्यखड्गेन शिरांसि अवश्चत् पशोरिवाकरुणः स्वर्गकामः ह्रीश्रीदया कीर्तिभिरुज्झितं त्वा स्वकर्मणा पुरुषाधैश्च गर्ह्यम् दृश्रेण मच्चोलविभिन्न अस्पृष्टवग्नें समधन्ते क्रध्राः अन्ये नो ये त्वे स नृसं समज्ञ प्रहरन्ति मह्यं तैर्भूतनातान् सगणान्निसादय त्रिशूलनिर्भिन्नघलैर्यजामि अतो हरे मे कुलिशेन वीर हर्त्रा प्रमत्यैव शिरो यदीह तन्त्रान् ऋणो भूतबलिं विधाय मनस्विनाम् बाध प्रपस्ये सुरेश कस्मान्न हिशोनिवज्रं पुरस्थिते वैरिणिमयमोहम् मा संस इष्ठानकतेव वज्रं स्यान्निष्फलं वयाज्ञा नन्वेष वज्रस्तव शक्रतेजसा हरेर्धती चेतस्तपसा तेनैव शत्रुं जगि विष्णुयन्त्रतो यतो हरिर्विजयच्छीर्गुणास्ततः अहं समाधाय मनो यथाह सङ्कर्षणस्तच्चरणारविन्दे त्वद्वज्ररं को लुलिथ ग्राम्यपाशो पुस्सां किलैकान्त धियां स्वकानं या शम्भो दिवि भूमौ रसायां संप्रयासः यद्वेष उद्वेक पतिर्विधत्ते पुरुषस्य शक्र ततो नुमे यो भगवत्प्रसादो यो दुर्लभो किञ्चन गोचरोन्यैः अहंहरे तव पादैकमूल दासानुदासो भविदास्मि भूयः मनस्मरेतासु पतेर्गुणांस्ते न नाकपृष्ठं न च पारमेष्ट्यं न सार्वभौमं न रसाधिपद्यं न योगसिद्धियपुनर्भवं वा समञ्जसत्वा विरहय्यकाङ्क्षे अजातपक्षा इव मातरं गगा स्तन्यं यथावत्सतराक्षुधार्ताः प्रियं प्रियेवुक्षितं विषण्णा मनोरविन्दाक्षदि ऋक्षते त्वां मम उत्तमश्लोकजनेषु सख्यं संसारचक्रे भ्रमतस्व कर्मभिः त्वन्माययात्मात् मजधारगेहेषो आसक्तचित्तस्य ननाथ इति श्रीमद्भागवते महापुराणे षष्टस्कन्ते वृत्सेंो सर्वत्र गोपिका जीवनस्म गोविंद गोविंद सद्गुनाथ महाराज की जय